श्रीहरिः प्रथमस्कन्धः अथ प्रथमोऽध्यायः सौनक उवाच जन्मात्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञस्वराट् तेन ब्रह्म हृदाय आदिकवये मुह्यन्ति यत्सूरयः ते जो वारिमृधां यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा सत्यं परं धीमहि धर्मप्रोजितकैतवोत्र परमो निर्मत्सराणां सदा भेद्यं वास्तवमत्र वस्तु श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सत् द्यो हृद्यवरुद्यतेऽत्र कृतिभेत् शुश्रुषु भित्तचक्षणात् निगमकल्पधुरोर्गलितं फलं सुखमुखातमृतत्रवसंयुतं पिबद भागवतं रसमालयम् मुहुरखो रसिका भुवि भावुकाः नैमिषे निमिषक्षेत्रे ऋषयः सौनगाधयः सत्रं स्वर्गाय लोकाय सहस्रसममासथा तये गता तु मुनयः प्रातर्हुत होद्धाग्नयः सत्कृतं सुधमासीनं इतमाधरात् ऋषयभूषुः त्वया खलु पुराणानि सेतिहासानि शानघा आज्ञातान्यपि अधीतानि धर्मशास्त्राणि यान्युता यानि वेदवितां श्रेष्ठो भगवान् पाधरायणः अन्ये च मुनयः सूतः परावरविदो विदुः वेत्त्वं सौम्यतत्सर्वं तत्त्वदत्तदनुग्रहात् ब्रूयुस्निग्धस्य शिष्यस्य गुरभो गुह्यमप्युत तत्र तत्रा, तत्रा जषायुष्मन् भवता यत् विनिश्चितम् पुंसा अर्हसि प्रायेणाल्पायुषः सव्यकलान्वस्मिन् युगे जनाः मन्दासु मन्द मतयो मन्दभाग्या ह्युभद्रुधाः भूरिणि यानि विभागसः अतशाधोऽत्र यत्सारं समुद्धृत्यमनीषया ब्रूहिनः श्रद्धधानानां येनात्मा सम्प्रसीदति सुधजानासि भगवान् सात्वतां पति देवज्ञाम् देवज्ञां वसुधेवस्य जातो यच्चिकेर्षयां तन्नः अर्हस्यङ्घानुवर्णितुं यस्यावतारो भूतानां क्षेमाय च भवाय च आपन्नः घोरं नाम विवसो गृणन् ततः सत्यो विमुच्येत स्वयं भयं यत्पादसंश्रया सूतमुनय प्रसमाय नाः सत्यः सर्वधुन्यो भो नुसेवया को वा भगवतस्तस्य पुण्यश्लोकेभ्यकर्मणः शुद्धिकामो न शृणु याद्य शक्कलिमलाभहं तस्य कर्माणि बुधाराणि परिगीतानि शुरीभिः ब्रूहिण श्रद्धधानानां लीलया दततः कलाः अधाज्ञा हि ईश्वरस्यात्ममायया भयं तु द्रुभ्याम उत्तमश्लोकविग्रमे यच्छृण्वतां रसज्ञानां स्वादुस्वादुपदे पदे कृतवान् किल भगवान् घोट कपठमानुषः कलिम् आगतम् आज्ञाय क्षेत्रेऽस्मिन् आसीनां दीर्घसत्रेण कथायां सक्षणाहरेः त्वं न त्रान् दुस्तरं निस्तिदीर्शतान् कलिं सत्वहरं पुंसान् कर्णधारयि वार्णवं ब्रूहि योगेश्वरे कृष्ण ब्रह्मण्डे धर्मवर्मणि स्वाङ्गाष्ठामधुनोपेधे धर्मखं शरणं गतः इति श्रीमद्भागवते महापुराणे पारमहंस्यां स्मिहितायां प्रथमस्कन्ते नैमीषयो भाग्याने